देवा मनुष्या ष्याः पितरस्तेऽन्यसन्न सुलक्षाकम् शिशाचास्तेदयदल्पम् लोहितमकुर्वन् तद्रक्षाकम् शिरात्रेफलसुभ्यन्तान् शुभ्रान् मृता न हिम्यौः ै नाजं विजते रक्षागं शिवाजिमां भजन्ते रक्षा शिवानन्दयन्तरं प्रणामहैर्यदसुरां जामृतन्नः सहासरि वै देवा असुरा न जयन्ते असुराञ्जिवा रक्षा यस्य पानुदं ददा निरक्षा यस्य नृतमगर्ते समन्तं देवान् परिजविषन्ते देवाज्ञावना पुरोडासमस्ताकपालं निरवपन् अग्नदे प्रदेगवदे जदग्नधे प्रवदे गरवेव पुरस्ताद्रक्षागस्या सन्तानि ते न प्रानुदं दगदग्नरे विदासवदे याह्वाभिता रक्षागस्या सन्तानि ते नौर्यवासं दगदग्नधे प्रदेगवदेवापश्चाद्रक्षागस्या सन्तानि ते न देवा अभवन् परासु राजोऽभ्याद्रूयमान् स्यात्मर्धमान्यजेतजे स्याय चे धान्यजे प्लवते मरोणाशमष्टाङ्गमागन्यजे पिबाधवधे ग्नय प्रवदेवास्माच्छ्रेयान् भ्रातु न प्रणुदते यदाग्नये विबाधवदे यदेवैनेन सदृदन्ते न विबाधते यदाग्नय प्रदेगवदे विद्वान देवासुरासंयक्ता आसन्ते देवा अब्रुवन्यो नो वीरुजावत्तमस्तमनु समारभामहा निजित इन्द्रमब्रुभन्त्वम् वै नो वीरुजावत्तमोऽसि त्वामनु समारभामहाविसोहाब्रवेत्ति सो मयिमास्तनुवो वीरजावयेस्तास्त्रे नेताछा सुदानपि भविष्य चिता मयि ब्रोहे च ब्रुवन् विजमगं होमभिजम् विभृषजमिन्द्रिया पदेत्य ब्रभेत्तयम् राजागं होमज पुरोडासमेकादृशकपालं निरवपण्ं राजवै मृधादेन्द्राजयं धृजावतेन्द्राजागुम्भौमुचिलवपन्नगं हस देवतेना मुत्स्यं धीन्द्राज वै मृथा च मृथ देवतेनापादिन्द्राजेयं धृजापतं धृजमेवतेनात्मन्यज सत्रयस्त्रिगुं सत्कपालं पुरोडासं त्तमामसुधैर्यजगं तजोस्पर्धमान एतजेतेन्द्राजागम्भोमुचे पुरोडाचमेकादशकवारण्यम् भेन्द्राज वै मृथादेन्द्रादेन्द्रिया भदुं हसा वादेश गृहेतो यस्मात् श्रेदान्भ्यातृविधोकिन्द्रायागुम्होमुचय नवत्तम् हस देव नमुच्यदय मृधा इन्द्रादयम् धृजावदयम् धृजमेव जनात्मम् धत्ते त्रयस्रगम् सत्कपालम् पुरोणा सङ्गर्वपतित्रयस्रगम् षास्ता एव रजमान आत्मन्ननुसमारम्भयते भोत्येशा विजतुर्नामेष्टम् विद्वा येतजेष्ट्याकजतवोत्तमामेव विजतिर् धातुम् जैन विजयते देवासुरास्य यत्ता आसन्देशाङ्गायच्छियोबलमिन्द्रियं देवजं प्रजां प्रशवन् सङ्ग्रह्यादाभ्रं जातिष्ठद्यमन्यं दजनानुवाजिरमुपावत्सरित इदं भविष्यं देतुतां यह्वयं तमिस्वकर्मण्यज देवादाभेजसुरास्ताना दे श्च नोपावत्पदते देवा एतज्ञन्नो जोषिव नमसिभ्याजोऽष देवानान्धामन विश्वमसि विश्वायुः सर्वमसि सर्वायुरपि दिवावदेवा असुराणामो जोमिन्द्रियं प्रजां वशो न वृञ्जनयत्पक्रम्यास्मादेतां गायत्री तिष्ठ्यमाहुस्संवत्सरो वे गायत्रे संवत्सरो वेतदपक्रम्यासुराणामो जो जां पशो न वृन्द तस्मादेताकं सम्पर्गजितेष्ट्यमाहल्योऽभ्याद्रौमान् स्यात् ष्टागपातमासन्नमेते नजुषा बलमिन्द्रियम् वीर्यम् प्रजाम् पशुम् भ्रातृजस्य वृन्दे भवत्यात्मना परास्य भ्रातॄजो भवति जापदः प्रजा असृज तता अस्मात्सृष्टाः पराजय राजन्ता यत्रावसन्ततो घर्मदतिष्ठत्ता बृहस्पतश्चान्भवेंसो ब्रवेद् बृहस्पतिरनजाः प्रदच्छान् न प्रजापावर्सन्ते जतम् राजष्ठत्त प्रजापर्यम् प्रजापावर्तन्तरः प्रजागामश्च तस्मादतम् ेन सदेवास्मैः प्रजां प्रजनजते प्रजापदिः पशो न सृजनते यस्मात् सृष्टाः पराः चायन्ते यत्र वसन्ततो कर्मदच्छतान् पोषाचान् बैतां सोत् पोषाणया उपावत्सन्ते मां प्रतिष्ठेति सोमाकृष्टुभौ वा प्रतिष्ठानेत्य प्रजापदम् पशव उपावत्तं तजः पशुकामस्या तस्मादे सोमापोष्णङ्गा सोमा भूषणा भे नोपथापतिता देवस्मे पशोन्व्रजनगतः सोमो वै रेतोधा पूषापशूनाम्रजनगिता सोमदेवास्मे रेदोदधाति भूषापशोन्द्रजनगति आग्नेगो धर्मः गहेन्दोपुष्ट्यानः इन्द्रो हर्ता विहेषणः सवितायः सहस्रिगः सनो गृहेषु रारण आे त्वावसो धाता ददातु नो रजिमेषानो जगतस्पतिः स नः पूर्णेन वावनत् त्वष्टाजो च येन देवामृतम् देर्भगृश्रवो दिव्यैरगन्ता राजस्व षत्वमस्म भगवाः जीवसहायुमस्व अग्निर्ग्रहपदेश वा विश्ववनिस्वसुमेधा स्वाहा अग्ने गृहपदेगस्ते धृत्व आक्रममाणायथे श्रेष्ठ्याः क्वथो मायोषम्मूर्धा चित्रया गचेत पशुकामधियं वै चित्रायद्वा अस्यां विश्वं भोतमधिजागचतं दिद्वा विश्चित्रजा पशुकामो जशुखर्मिथुनैर्जायते प्रैवाग्नेपयतिरेतस्सौम्येन तथास्वतौ भवतद्वै दैव्यं मिथुनं दैव्यमेवास्मै तो दधा देष्ट्यै पुल्यै चतुर्भवति वा द्वेषाल्युष्ट्यश्च वैवाचमुपैत्यैन्द्रमुत्पं भवति सप्तैतानि हवेगुं शिभवन्ति सप्तग्राम्याः पशवः सप्तारण्या सप्तशन्ताकस्याहुते जह चेते वै देवाः पुष्टिपद ुष्टिम् दधरि पृष्यते प्रजजा पशुभिरसोजप्रतिष्ठित्यैतमसि मरुतामोजोपान्धाराम्भिन्धि न मरुतस्य न माजिनम् मनोजपसम्मृषणकम् सुवृत्तिम् येन शब्धपुग्रमवसृष्टमे च ददश्विनापरिधत्त स्वस्ति पुरावादावर्षं जन्मरावृत्स्वाहा वातावद्वर्षं मुग्ररामृत् स्वाहा स्तनगन् वर्षन् भीमरावृत्स्वाहा न सन्नवस्थोर्भ्यं विद्युद्वर्षं केशरावृत्स्वाहात्रं वर्षन् भोक्तिरावृत्स्वाहा बहुहारमवृषादि चुतरावृत्स्वाहा तपदिवर्षन् विराडावृत् स्वाहा ज्योतिष्मदे स्तमस्वरेन्दते सुफेनाः मेत्रफः क्षत्रफितः सुराः मावता कृष्णा स्वस्य सन्तानमधिकृष्टे त्वोपनश्यामि एवामसञ्जानग्ने सोमसूर्य देवाः शर्मण्या मित्रावरुणा यन् देवाः सपेतयोपाः अन्नपादाशुहेमन् बुद्धो दत्तो द्विषिम्भ्यन्तदिवः पर्जन्यादन्तरेक्षात् दिवाचित्तमः कृण्वन्ति पर्जन्येनोदवाहेन यभ्युन्दन्ति आयन्नरः सुदानवो ददासुषे दिवः कोशमसुच्यवः पर्जन्याः सृजन्ति रोदसी अनुथन्वनायन्ति वृष्टयः उदे यथामनुतः समुद्रतो योजम् वृष्ट्यम्बषयथािनः नवोदस्ता उपदस्यन्सुभञ्जातामनुरथा अवृत्सता सजा वृष्टिम् निवाहाभ्यः समुद्रम् प्रण्या असि क्वथमजामलमसि समुद्रियम् वृण्णम् भजप् शिवेदम् दिव्यजम् नभः वृण््यस्य नो देहेश नो विसृजादितिम् देवादिविभागायभागाय कृषिविभागाः त्रयि मैलज्ञमवन्तु लदं श क्रमाभि सन्तु लदं शमनिविसन्तु मारुतमसि मरुदामो जयति कृष्णं वासः कृष्णतोषं परिधत्वरे तद्मेवष्टे गोपगुंसलोपदेव भूत्वा पर्जन्यं वर्षयज रमयतमरुदस्येन भाजनमिति पश्चाद्वादम्पुरोतमेव जनयति वर्षस्यावरुद्धैवादभायुरमे वायुमेवस्येन भागधे पञ्चन्यं वर्षलत्यष्टौ जहो दिशतस्रो वेदिषश्चतस्रोवान्तरदिशा दिग्भ्य वृष्टयं संप्रध्यापयति कृष्णार्जनयसंयति हिवाकरन्तर्भेदिवरुध्य मध्यमानानागुंशीदृशाणि वरापदन्ते खर्जूरा अपमन्ते साधुप्तानि कलीराण्यभवान् सौम्यानि वेदवेराणि आहुय दिवा वृष्टिं स्यादय जय करे राणि भवन्ति सौम्यदेवाहृत्या दिवा वृष्टिमवरिन्धे मधुरासल्यो ह्यवाम्बारथवो नागुम्बस जन्मध्वद्भ्वजयवौषधेभ्य वरिषत्यथ अध्वजयवौषधे ष्टङ्गमान्दावासाविदसंयोदनामथे धीरेवैनाच्छैत्य सो यथाः ग्रोया च देवावसं या देवाः श्रेवाः समेतय इत्यावध्नादिदेवताभिरेवान् वहं वृष्टिमिच्छति यदि, यदि वर्षे तावत् देवः दुर्जय दिनवर्षेष्वभूदेहभिर्मेदहो रात्रे वै मित्रावरुणा वहोरात्राभ्यां खलु वै वर्जन्यो वरिषदि भागधे धावधिता वेमा स्मा अहोरात्रा जन्यं वर्षयतो ज्ञदेधा मच्छदेव रोडाचमष्टागपालं निर्वपेन्मारुदगं सप्तकपालगं सौर्यमेकगपालमग्निर्वाय वृष्टिमुदे नयति मरुदः सृष्टान्नजं दि यदा खलु वा सावादित्योऽन्यङ्पर्यावर्तते च वर्षदिधामच्छदिव खलु च भोत्रा वर्षत्येता वै देवता वृष्ट्या एषदेता देवस्वै न भागजयजेनो हेवास्मै वर्जन्यं वर्षयं ज्युता वरिषिष्यन् वरिषद्येव सृजा वृष्टिं दिव आभ्यः समुद्रं वृणेत्या हेमाश्चैवामोऽस्तावस्समर्थगत्यथो आभिरेवामोरच्छत्यसमजाबमसि समुद्रिहमित्याहयथा यजुरयवेदुं नं भज वृषिमीमिति वर्षाह्वाञ्जुहोत्येषा वा निस्तरे देववृष्टिमाच्यामयदिने देवादिविभागानिधि दे दे दे कृष्णाजिनमवधो नो देवदेवास्मि लोकाः प्रीता अभीष्टा भवन्ति सर्वाणि छन्दायस्येतस्यामिष्ट्या मनोच्यानेत्याहुस्पृष्पो वा एतद्धेयं यत्कतुदृष्णिहा जगद्धेयदुष्णिः कतुभावन्वाहतेनैव सर्वाणि सन्दानिश्च वरुन्धे गायद्रीवादेशाय वृष्णिहा यानि चत्वारि यध्यक्षराणि च पश्वाद एव देवशवो यथा पुरोडाचे पुरोडाशोऽध्येव तद्यध्यक्षराणि यज्जगत्यावदत् ध्यादं तर्यज्ञं गमने त्रिष्टुभापरि दधातेन्द्रियं वैर्वीर्यं तिष्ठेन्द्रियदेववीर्यैरज्ञं प्रतिष्ठापय दिनान्तं गमयत्यज्ञेत्रिदेवादिनात्रेशध्यापरि दधाति सर्वोपत्वारि सर्वोमायेषा मेत्रैषादवेदं कामाजगामाजप्रयुज्यते सर्वेभ्योमे प्रयुज्यत्रै धादवीनेन जयदाभिचलन् सर्वो बालेण यज्ञो यत्रैथादवेदगुं सर्वेणैवेन यज्ञेनाभिचरति स्तृणत एवमेदैव गजेदाभिचर्यमाणः सर्वो बालेश यज्ञो यत्रै धादवेदगुं सर्वेणैव यज्ञेन गजदनैनमभिचलन् स्तृणुत एतदैव गजयद सहस्रेण जष्यमाणः प्रजातमेवैनं ददा त्येत देव गजेन सहस्रेणेश पशूनां गच्छति यत् सहस्रेण गजते प्रजापतिः खलु वै पशो न सजतता देश आवृष्टते यो vatar vatar rajaya त्येवमिवीं लोकायमयो मध्यजे तद्वान्तरिक्षस्वरूपगुण समृद्धै सर्वेषामभिगमयन्नवत्तरण्वा वरुन्धेतान्दजाति पशो ने वा वरुन्धै नन्ददाशिषये वा वरुन्धे नो वा रेष वर्णो यद्धिरण्ये कजुषान्तामदानान्धेतानेव ब्रह्मा न स्पष्टाहतपु द्रोवेन्द्रुं समवाह रक्तस्मिन्निम्र उपहवमेच्छतं नोपात्मय तत्र जज्ञवेशसं कृत्वा प्रासः सोममपि भक्तस्य यधच्चिष्यत त्वष्टाहवने नावर्तत् पा स्वाहेन्द्रशत्रुर्वर्धस्वे दिसजावदोर्ध्वः पदा विध्वज तावज स्वयमेव प्रवणमासे ग्नेरासेत् सम्भवन् नग्नेशमारभि समभवत्स यिषु मात्रमिषु मात्रं स जिमाल् लोकान् बृह्माद्यमाल्लोकान् बृह्स्तवस्मादिन्द्रिभेदभि त्वष्टा तस्मै त्वष्टा वज्रमसिंचत्तपो वै स देवतासे सोऽ वैष्णवे हे नमा हरिष्या भोजय नाजमिदमिष्णस्त्रेधात्मानं विन्यृसयुजान् दृतेजमं दरिक्षितेजम् पर्यावर्ताच्छयुजान् दृतेजमासे छद्विष्मरस्थितसो ब्रवेन्मा मे प्रहारस्ति वादंर्यं दे प्रदास्यामि तदस्मै प्रायच्छत्तत्प्रत्यगृह्णा दधा प्रहारस्ति वादिदं मदिवेर्यं तत्ते I'm in the dream. ्रवीत् सन्धान्तु सन्दधा वहेत् त्वामेव नीति जन्मां प्रविशे किं मा भुञ्ज्यादित्यब्रवीत् त्वामेवेन्धिोगाज त्वां प्रविश जत्यब्रवीत् त्वं वृद्रः प्राविशदुदरं वे वृद्रः क्षत् खलु वै मनुष्यश्च भ्रातृविजोज एवं वेदहन्धिक्षुतं भ्रातृभुजं तदस्मै प्राणच्छत्प्रत्यग्रन्थात्रेमाधावेदि प्रायच्छत्तद्वैष्णः प्रत्यगन्धादस्मास्विन्द्रगन्द्रियं प्रागच्छत्रगन्धातो प्रागच्छत्तस्मादीन्द्रा वैष्णवमोहगिगद्वा निरङ्गञ्च तदस्मे तत्प्रागच्छति चवानिजोगं श्रीसहस्रं वा अस्मै तत्प्रागच्छत्तस्मात् सहस्रदक्षिणम् देवा वीराजन्याज्वायमायामन्तरे वसन्तम्नापौहुम्भन् समादेशोपोग्धो जागद् गद्राजन्यायद्वादेशो नपो जेतवृत्रान् भगस्करेद्यम् कामरेतराजन्यमनवभ्योजालेतवृत्रान् भर्गश्चरे तस्मादेतमयीन्द्रावाहस्पत्यम् चरण्यर्मभेदयेन्द्रो वे राजन्यो ब्रह्मवृहस्वर्ब्रह्मणैव वैनन्दाम् नवोम् भनान् मुञ्चति हिरण्मदं नव नव भवजानोहाषसामेऽत्यग्रे भागम् देवेभ्याविदधाज्जागम् प्रचन्द्रमाः स्थिरति दीर्घमायुः जमादित्या अपुंसुमाः व्याजयम् दियमक्षिदमक्षिलदः पिबन्ति तेन गो राजामरणृहस्पतिराव्याजयम् तु पवनश्च गोपाः त्वमिन्द्रासि राजोतो देच्छामृत्रहन्वृत्रहासि प्रयन्ति श्रोच्यास्तज्जितं दक्षिणतो वृषभदे जिहव्यः इन्द्रोज न पराजयाता अधिराजो राजसुराजयाति भोजास्तना अभीष्टे नृपसब्जो नभस्यो यथासत् महित्वं स्य देव प्रति महित्वम् दिवः पृथ्यान्तरिक्षात् स्मराणि विश्वगोत्तस्वर्यमोक्षेरणायद्वासोरनो नमो दुग्धा नमः ईशानमस्तजगदस्वभदृशमीशानमिम्रतस्थुषः स्वामिद्धि हवामहे सातावादस्य कारवः ृद्रेष्विन्द्रसत्पथिम् नरस्त्वाम् काष्ठा सर्वतः निद्यावयिम् ऋदे शतकम् शतम् भोमे हृदय स्युः ेवन्द्रे दे सन्तु विवाजाः च यस्तभविज्योतिषो दृत्यम् जातवे दशगुम् सप्तत्वा हरितोन्ति देवसौर्य शोचिष्केशं विचक्षण चित्रम् देवानामुदगादने कञ्चक्षुर्मित्रस्य वरुणस्याः अन्तरिक्षगुंसौर्य आत्मा जगदस्तस्थुषश्च विश्वेदेवालतावृतऋतुभिर्हवनः श्रुतः विषन् धायुज्जम्पयः विश्वे देवाश्रुतेमगुम् हवम् मे ये अन्तरिक्षेज ये अग्निजह्वा उत वाजत्रा आसद्यास्मिन् बहिषिपादयध्वम् ओ oh. oh.